यतमानावनं राजन् गहनं प्रतिपेदिरे ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः पुनरुचुर्महावीर्यं भीमसेनमिदं वचः इतः कष्टतरं किं नु यद्वयं गहने वने दिशश्च न विजानीमो गन्तुं चैव न शक्नुमः तञ्च पापम् न जानीमो यदि दग्धपुरोचनः कथम् तु विप्रमुच्येम भयादस्मादलक्षिताः पुनरस्मानुपादाय तथैव व्रजभारत त्वम् हि नो बलवानेको यथा सततगस्तथा इत्युक्तो धर्मराजेन भीमसेनो महाबलह आदायकुन्तीं भ्रातृंश्च जगामाशु महाबलः इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि पाण्डववनप्रवेशे एकोनपञ्चाशदधिकशततमोऽध्यायः